बालमोदिनीकथा नाम रक्षणीयः कार्योत्साहः कश्चन प्रवचनकारः विभिन्नान् प्रदेशान् गत्वा प्रवचनं कृत्वा जनानां सन्मार्गे प्रवर्तनं एव तस्य वृत्तिः मन्दिरे तरुतले वा तस्य वासः जनैः प्रीत्या यद् दीयेत् तत् सेवते सः धनादिकं यदि दीयेत् तर्हि तत्रैव वितरति सः सर्वत्र पादाभ्यामेव सञ्चारः कस्मिञ्चित् नगरे तदीयं प्रवर्चनं प्रवृत्तं जीवने अपूर्वां सिद्धिं प्राप्तुं प्रयासः विधेयः सर्वैरपि इति सह उक्तवान् प्रवचनस्य अन्ते कश्चन वयोज्येष्ठः उत्ताय अवदत् श्रीमन अपूर्वा सिद्धिः प्राप्तव्या इति भवता यत् तत्तु युक्तमेव किन्तु तत् तरुणैः एव कर्तुं शक्यं मादृशाः वृद्धाः एव विशिष्टा सिद्धि प्राप्त शक्या शंकराचार्य विवेकानंदपोलन तस्याह एव जगन्मान्यता वृद्धाः वयं सिद्धिं प्राप्तुम् न अर्हामः इति एतं वादं समर्थयन्तः त्रिचतुराः सभ्याः उत्थाय तारुण्ये एव सिद्धिः प्राप्तुं शक्या न तु वार्धक्ये इति प्रतिपादितवन्तः तावता वता कशन तरण इत्यादिकं उतु अत्युत्ह शरीरबलम इत्या भविनाषा जीवनात दुर्ल दुर्बल विवेचनशक्ति अपरिपक्वा किन्तु पयसा ज्येष्ठाः ये स्युः तेषु एतदुभयमपि भवति ततः एव कापि विशिष्टा सिद्धिः तैः एव सम्पादयितुं शक्या वाल्मीकिव्यासादयः बहवः शास्त्रकाराः अनेके आधुनिकाः ग्रन्थकाराः भूया सह विज्ञानिनः इत्यादयः अपूर्वां सिद्धिं दर्शितवन्तः पश्चिमे वयसि एव मनसः पक्वता विवेचनशक्तिः अनुभवः इत्यादयः जीवनस्य उत्तरार्धे एव सिद्ध्यन्ति इत्यतः वयसा ज्येष्ठाः एव अपूर्वां सिद्धिं प्राप्तुम् अर्हन्ति इति एतदवसरे अपि त्रिचतुराः उत्थाय एतम् वादम् समर्पयन्तः विविधानि उदाहरणानि उपस्थापितवन्तः अन्ते उपसंहाररूपेण प्रवचनकारः अवदत् चर्चायाः तात्पर्यं यत् सिद्धिः क्वचित् तारुण्ये दृश्यते क्वचित् च वार्धक्ये अपि दृश्यते इति वस्तुतः दैहिकवयसः सिद्धेः च न विशेषसम्बन्धः केचन तारुण्ये एव आसत्तिनाशं प्राप्य निरुत्साहः भवन्ति अन्ये केचन वार्धक्ये अपि उत्साहं परिरक्षन्ति अतः कार्योत्साहः एव सिद्धेः कारणं नतु वयह वयः तस्मात् कार्योत्साहं रक्षितुं सर्वैः अपि प्रयासः करणीयः इति